भद्रम् गर्णेभिः शृणुजामदेवाः भद्रम् पश्येवाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुम्सस्तनोभिः यशेव देवहितैयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्ख्य अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु शान्तिः शान्तिः शान्तिः ॐ लम् नमस्ते गणपतरे त्वमेव प्रत्यक्षन्तत्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् भक्तासि त्वमेव केवलम् भक्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ऋतम् वच्मि सत्यम् वच्मि अवत्वम् माम् अववक्तारम् अव अवधातारम् अवा अवधातारम् अवानूचानमवशिष्यम् अवपश्चात्ता अव पुरस्तात् अवोत्तरात्ता अवदक्षिणात्ता अवचोर्ध्वात्ता अवाधरात्तात् सर्वतो मां पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितेजोसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमजोऽसि सर्वम् जगदिदन्द्वत्तो जायते सर्वम् जगदिदन्द्वत्तस्तिष्ठति सर्वम् जगदिदन्द्वजिलजमेष्यति सर्वम् जगदिदन्द्वजिप्रत्येति त्वम् भूमिरापोनलोनिलो नभः त्वम् जत्वारि वा आत्पदानि त्वम् गुणत्र जातीतः त्वम् अवस्थात्र जातीतः त्वम् देहत्रजातीतः त्वम् कालत्र जातीतः त्वम् मूलाधारे स्थितोऽसि नित्यम् त्वम् शक्तित्रजात्मकः त्वां योगिनोऽध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्म भूर्भुवस्वरो गणादिम् पूर्वमुच्चार्यवण्डादिम् तदनन्तरम् अनुस्वारः परतरः अर्धे एन्दुलसितम् एतत्तवमनुस्वरूपम् गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादः सन्धानम् सगम्हिता सन्धिः सैषा गाणेशविद्या निजृद्गायत्रीच्छन्दः श्रीमहागणपतिर्देवता ओङ्गम् गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदजा एकदन्तम् रदम् जवरदम् हस्तैर्भिर्भ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकण्डकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणवच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृते एः पुरुषात् परम् एवम् ध्यायति यो नित्यम् स योगिनां जो वरः नमो व्रातपतजे नमो गणपतजे नमः प्रमथपतजे नमस्ते स्थूलम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तजे नमो नमः एतदथर्वशीर्षञ योधीते स ब्रह्मभूजाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापा आप्रमुच्यते साजमधीजानो दिवसकृतम् पापन्ना यजति प्रातरधीजानो रात्रिकृतम् पापन्ना शजति साजम् प्रातः प्रजुञ्जानो पापो पापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च भिन्दति इदमथर्वशीर्षमशिष्याय न देयम् यो यदि मोहाद्दास्यति सपापीजान् भवति सहस्रावर्तनाद्यञ काममधीते तन्दमदेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्यामनश्नम् जपति स भवति, इत्यथर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यान्न विभेति कदाचनेति, नेति यो दूर्वाङ्कुरैर्यजति भवति यो लाजैर्यजति स यशोभान् भवति स मेधावान् भवति यो मोदकसहस्रेण गजति स वाञ्छितफलमवाप्नोति यः सा ज्य समिद्भिर्गजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् सम्यग्राहजित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्याम् प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नाप्रमुच्यते महादोषा आत्प्रमुच्यते महापापा अप्रमुच्यते महाप्रत्यवाजा महा अप्रमुच्यते स सर्वविद् भवति य एवम् वेदा भद्रम् गण्डेभिः शृणुजाब देवाः भद्रम् पश्ये वाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुपाकम् सस्तदूभिः यशेव देवहितै यदायुः स्वस्ति स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्ख्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः